पदेभ्यश्च वो न मानमस्येनाभ्येनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहेतुभ्यश्च वो नमो नमस्तक्षभ्यो न सकारेभ्यश्च वो नमो नमः कुलादेभ्यः मारेभ्यश्च वो न मानवः कुन्दिष्टेभ्यो निषानेभ्यश्च वो नमो नमः इषकृद्भ्यो धन्मकृद्भ्यश्च वो नमो नमः वृगजेभ्य स्वदेभ्यश्च नमो नमस्वभ्यश्च पदिभ्यश्च वो नमः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 मेघ्याय च विद्युत्याय च न वेभ्ययाय चा तप्याय च नभो वात्याय च लेश्म्याय च नभो वास्तव्याय च वा स्तुपायच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 जा च नमः प्रतरणाय चोत्तरणाय च नम आधार्याय चालाज्याय च नमषष्ठ्याय चैन्याय च नमस्य गत्याय सकबाह्याय च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 सहस्रमगतम् पाशा मृत्यो मर्त्याय हन्त मे तानि यज्ञस्य पायजा सर्वा नव गजामहे मृत्यभे स्वाहा मृत्यभे स्वाहा वोन्नम भगवते रुद्राय विष्णवे मृत्युर्मे भाई प्राण जलद्रामाविश्रान्तगाः एनान्येनाहाप्याहस्वा न वारद्राय विष्णवे मृत्यर्मे ष्टमे प्रसमस्तमे प्रजतिष्टमे प्रजतिष्टमे धीतिष्ठमे क्रतुष्टमे स्वरस्तमे श्लोकश्च मे श्राव्योतिष्टमे शुभस्तमे प्राणस्तमे बाणस्तमे ज्ञानस्तमे च मधीतञ्जमे वाच्यमे मनस्तमे चक्षुष्टमे श्रोत्यञ्चमे रक्षस्तमे बलञ्च मोधष्टमे समस्तम आयुष्टमे जराजमात्माचमे धनोष्टमे Sama jame, Varma jame, Ngani jame, Sthani jame, Parva Gumsi jame, Saritani jame.